ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं 41. अगस्त्य उवाच कीदृशं यन्त्रमेधस्या मन्त्रो वा कीदृशो वरः उपदेष्टा वा कीदृस्याच्छिष्यो वा कीदृशस्मृतः सर्वज्ञस्त्वं हयग्रीव साक्षात्परमपूरुषः स्वामिन्मयि कृपा दृष्ट्या सर्वमेदन्निवेदय हयग्रीव उवाच मन्त्रं श्रीचक्रगेवास्यास्येयं हि त्रिपुराम्बिका सैशैव हि महालक्ष्मीस्फुरच्चैवात्मनः पुरा पश्यति तदा चक्रं ज्योतिर्मय विजृम्भितम् अस्य चक्रस्य माहात्म्यमपरिज्ञेयमेव हि साक्षात् सैव महालक्ष्मीश्रीचक्रमिति तत्त्वतः यदभ्यर्च्यमः महा विष्णुः सर्वलोकविमोहनं कामसम्मोहिनीरूपम् भेजे राजीवलोचनः अर्चयित्वा तदीशानः सर्वविद्येश्वरो भवत् तदाराध्यविशेषेण ब्रह्मा ब्रह्माण्डसूरभूतमुनीनां मोहनश्चासीत् स्मरो यद्वरि वस्यया श्रीदेव्याः पुरतश्चक्रं हेमरौप्यादिनिर्मितं निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया प्रत्यहं तुलसीपत्रायः पवित्रायैर्मङ्गलाकृतिः सहस्राैर्मूलमन्त्रेण श्रीदेवी ध्यानसंयुतः अर्चयित्वा च मध्वाज्यशर्करा पायसैः शुभैः अनवद्यैश्च नैवेद्यैर्मशापूपैर्मनोहरैः यः प्रीणदिमहालक्ष्मीं मदीमान्मण्डलत्रये महसा तस्य सान्निध्यमाधत्ते परमेश्वरी मनसा यच्च प्रसन्ना तत्प्रपूरयेद् धवलै कुसुमैश्चक्रमुक्तरीत्या दुयोर्चयेद् तस्यैव रसनाभागे नित्यं नृत्यधिभारति पाढलैः कुसुमैश्चक्रं योऽर्चयेदुःखमार्गदः सार्वभौमं च राजानं दासवद्वशयेदसौ पीतवर्णैः शुभैः पुष्पैः पूर्ववत्पूजयेच्छ यः तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवं दुर्गन्धैर्गन्धहीनैश्च सुवर्णैरपि नार्चयेद् सुगन्धैरेव कुसुंहैः पुष्पैश्चाभ्यर्चयोच्छवाम् कामाक्ष्यैव महालक्ष्मीश्चक्रं श्रीचक्रमेव हि श्रीविद्यैषा पराविद्या नायिका गुरुनायिका यदस्यामन्त्रराजस्तु श्रीविद्यैव तपोधन कामराजान्दमन्त्रान्ते श्रीबीजेन समन्वितः षोडशाक्षरविधेयं श्रीविद्येऽधिप्रकीर्तिता इद्धं रहस्यमाख्यातं गोपनीयं प्रयत्नतः तिसॄणामपि मूर्तीनां शक्तिर्विद्येयमीरिदा सर्वेषामपि मन्त्राणां विद्यैषा प्राणरूपिणी पारम्पर्येण विज्ञाता विद्येयं बन्धमोचिनी संस्मृतापापहरणी जरामृत्यो विनाशिनी पूजिता दुःखदौर्भाग्यव्याधिदारिद्र्यनाशिनी स्तुता विघ्नमुखशमिनी द्यादा सर्वार्थसिद्धिदा मुद्राविशेषतत्त्वज्ञो दीक्षा भजेद्य परमेशानी परमेशानीमभीष्ट फलमाप्नुयाद धवलां धवलाम्बरसंविदां धवलावासमध्यगां पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्ययुतो नरः धवलैश्चैव नैवेद्यैर्दधि क्षीरौदनादिभिः सङ्कल्पधवलैर्वापि पूजयेत् परमेश्वरीम् श्रीर्वालन्त्र्यक्षीबीधैक्रमात्कण्डेषु योजितां षोडशाक्षरविद्यां ता मार्चयेच्छुद्ध मानसः अनुलोमविलोमेन प्रजपन्मातृकाक्षरैः भावयन्नेव देवाग्रे श्रीदेवीं दीपरूपिणीम् मनसोपांशुना वापि निगधेनापितापस श्रीदेवीन्याससहित श्रीदेवी कृदविग्रहः एकलक्षजपेनैव महापापैः प्रमुच्यते दे। लक्षद्वयेन देवर्षे सप्तजन्म कृतान्यपि पापानि नाशयत्येव साधकस्य पराकला कला लक्षत्रितयजापेन सहस्रजनिपातकैः मुच्यते नात्र सन्देहो निर्मलो नितरां मुनि क्रमात् देवी सान्निध्यमाप्नुयात् पूजात्रैकालिकी नित्यं जपस्तर्पणमेव च ओमो ब्राह्मणभुक्त्रिश्च पुरश्चरणमुच्यते होमतर्पणयोः स्वाहान्यासपूजनयोर्नमः मन्त्रान्दे पूजये देवीं जपकाले यदोचितं। जपात् दशांशो होमस्यात् तद्दशांशं तु तर्पणं तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन देशकालोपखाते तु यद्यदङ्गं विहीयते तत्सङ्ख्याद्विगुणं जत्वा पुरश्चर्यां समापयेद् ततः काम्यप्रयोगार्थं पुनर्लक्षत्रयं जपेत् व्रतस्थो निर्विकारश्चत्रिकालं पूजने रतः पश्चाद्वस्यादिकर्माणि कुर्वन् सिद्धिमवाप्स्यति अध्यर्च्यचक्रमध्यस्थो मन्त्री चिन्तयते यदा सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम् तदोभवदिविन्ध्यारे भवति विन्ध्यारे सर्वसौभाग्यसुन्दरः वल्लभः सर्वलोकानां संशयः रोचना कुङ्कुमाभ्यां तु समभागं तु चन्दनं शतमष्टोत्तरं जप्त्वा तिलकं कारयेत् बुधः ततोऽयमीक्षदे वक्रे स्पृशदे चिन्तयेत् चयम् अर्धेण च शरीरेण स दासवद तथा पुष्पं फलं गन्धं पानं वस्त्रं तपोधना शतमष्टोत्तरं जत्वा यस्याई सम्प्रोष्यते स्त्रियै सद्य आकृष्यते साधु विमूढहृदया सती लिखे द्रोचनयैकान्ते प्रतिमामवनीतले सुरूपाञ्च सशृङ्गारवेषाभरणमण्डिताम् तद्भालगलहृन्नाभिजानुमण्डलयोजितं जन्मना मम विद्यामङ्गुशान्दर्विदर्भितं सर्वाङ्गसन्धि संलीनामालिख्य मदनाक्षरैः तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः बद्ध्वा दुक्षोभिणीमुद्रां विद्यामष्टशतं जपेद संयोज्य दहनागारे चन्द्रसूर्यप्रभाकुले तदो विह्वलितापाङ्गीमनङ्गशरपीडितां प्रज्वलन्मदनोन्मेषप्रस्फुरज्जघनस्थलां शक्रिचक्रे दूरी कृता विशाल लसद्रश्मलवली दूरीकृत सुचारित्र विशालनयनाबुज आकष्टनयना नष्टैर्यसनव्रीडना मंत्रयंत्रौष महामुद्रा निगढ़बंधना दूरीकृत सुचारित्राम विशालनयनाम्बुजां मनोधिकमहामन्त्रजपमानां हृतां शुकां विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम् लिखितामिव निःसंज्ञामिव प्रमथितामिव निलीनामिव निश्चेष्टामिवन्यत्वं ददामिव भ्रमन्मन्त्रानिलोद्धूतवेणुपत्राकृतिं च खे भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि चक्रमध्यकदां पृथ्वीं सशैलवनकाननां चतुस्समुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः षण्मासाभ्यासयोगेन जायते मदनोपमः दृष्ट्वा दृष्ट्वैव कुरुदेवशं दृष्ट्वा दृष्ट्वैव हरदेविशं दृष्ट्वा करीदिवागीशं दृष्ट्वा चातुर्थी कां धींश्च नाशय क्षणाद पीतद्रव्येण लिखितं चक्रं गोठं तु धारयेद् वाक्स्तम्भं वादिनां क्षिप्रं कुरुते नात्र संशयः महानीलीरसेनापि शत्रूनामयुतं लिखेत् दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून् महिषाश्वपुरीशाभ्यां गोमूत्रैर्नामटङ्कितम् आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषां युक्त्वा रोचनया नाम काकपक्षेण मध्यगम् लम्बमानस्तदाकारोच्चाडनकरं परं दुग्धलाक्षारोचनाभिर्महानीलीरसेन च लिखित्वा धारयंश्चक्रं चादुर्वर्ण्यं वशं अनेनैव विधानेन जलमध्ये यदिक्षिपेद् सौभाग्यमधुलं तस्य स्नानपानान्न संशयः चक्रमध्यगदन्देशं नगरीं वा वराङ्गनां ज्वलन्तीं चिन्तयेन्नित्यं सप्ताहात्क्षोभयेन्मुने लिखित्वा पीतवर्णं तु चक्रमेदद्यदाचरेत् पूर्वाशाभिमुखो भूत्वा स्तम्भयेत्सर्ववादिनः सिन्दूरवर्णलिखितं पूजयेदुत्तरामुखः यदा तदा स्ववशगो लोको भवति नान्यथा चक्रं गौरिकयालिख्य पूजयेत् पश्चिमामुखः यः सर्वाङ्गनाकर्ष वह्योभको भवद पूजयेदर्पारे रखस्येक गिर अजरामरता मंत्री लें संशय रखस्यकथिद गोपित महा मुने गोपनासिद्धि सिया्रंश यकाशनाद अविधाय पुरश्चर्यां यः कुरुदे मुने देवता शापमाप्नोति न च सिद्धिं स विन्दति प्रयोगदोषशान्त्यर्थं पुनर्लक्षं जपेद्बुधः कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः निष्कामो दैवता निर्चयभक्भर तमेव चिंतना यहामु जपन् सैहिककंभारम वेन्मु साधा संता कथ वात्सल्यसहिताधेनु यथा वत्समनुव्रजेद् तथानु गच्छेत् सा देवी स्वभक्तं शरणागतम् अगस्त्य उवाच शरणागतशब्दस्य कोऽर्थो वदहयानन वत्सं गौरिव यं गौरी धावन्तमनुधावति हयग्रीव उवाच यः पुमानखिलम्भारमैहिकामुष्मिकात्मकं श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः सर्वानुकूलसर्वत्र प्रतिकूलविवर्जितः अनन्यशरणो गौरीं दृढं संप्रार्थ्य रक्षणे रक्षिष्यतीति विश्वासस्तत्सेवैकप्रयोजनः वरिवस्यात्तत्परस्यात् सा एव शरणागतिः यदा कदाचित्स्तुतिनिन्दनादौ निन्दुलोकास्तुवतां जनो वा इति स्वरूपं सुधिया समेक्ष्य विषादखेदौ न भजेत् प्रपन्नः अनुकूलस्य सङ्कल्पः प्रतिकूलस्य वर्जनं रक्षिष्यतीति विश्वासो गोधृत्ववरणं तथा आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः अङ्गीकृत्यात्मनिक्षेपं पञ्चाङ्गानि समर्पयेद् नह्यस्य सदृशं किञ्चित् भुक्ति मुक्रियोस्तु साधनम् अमानित्वं मदंभित्त्वमहिंसा क्षान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च जन्म मृत्युजराव्याधिदुःखदोषानुदर्शनम् अशक्तिरनभिष्वङ्घपुत्रधारगृहादिषु नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु मयि चानन्यभावेन भक्तिक्यभिचारिणी विविक्तदेशसेवित्वमरधिर्जनसंसदि अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनं एतानि सर्वदा ज्ञानसाधनानि समभ्यसेत् तत्कर्म कृतत्परमस्तद्भक्तसङ्गवर्जितः निर्वैरसर्वभूतेषु यस्य यादि परां श्रियं गुरुस्तु मादृशो धीमाञ्छ्यादो वाद पितापनशिष्योऽपित्वादृशप्रोक्तो रहस्याम्नाय देशिकः इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एक ओम